पादपाठम् अस्येदिन्द्रो मदेश्वा विश्वावृत्राणि यिघ्नतये शूरोमघा चमंहते अस्येदिन्द्रो मदेष्वा विश्वावृत्राणि यिघ्नतये शूरोमघा चमंहते अस्येदिन्द्रो मदेष्वा विश्वावृत्राणि जिघ्नतये शूरो मघा चंहते